मुद्गलपुराणम् मुद्गलपुराणं 3 त्रिमहोदरचरितम् अध्यायं 26 रामचन्द्रचरितं श्रीगणेशाय नमः नरनारायणावोचदुः श्रुतस्य चैव नाभाग्यपुत्रस्तस्य बभूवः सिन्धुद्वीपस् तदो जज्ञे ज्ञानीपुत्रो महायशाः सुदस्तस्य तदो यऋदुपर्णकः स वै नलसखस्तस्मादश्वविद्यापरायणः सर्वकामस्तदो जज्ञे तस्माज्जादस्सुदासकः सौदासस्तस्य पुत्रोऽभूख्यादः कल्माषपादकः कल्माषपादक्षेत्रे वैवसिष्ठो मुनिसत्तमः अश्मकं जनयामास चेक्ष्वाकुकुलवर्धकम् अश्मकस्य च पुत्रो भून्मूलको नाम पार्थिवः स रामभयाद्राजा वनं प्राप्य सुदुःखितः तत्र नारीस्वरूपः सन्नारीभिः परिरक्षितः कवच नारीकवचनामाभूकर्मणाथेन भो मुने तस्माच्छदरथश्चैलविलोजज्ञे च सत्सुतः तदो विश्वसकस्तस्मात् खड्वाङ्गो ढुण्डिमाप्तवान् दीर्घबाहुस्ततस्तस्माद्द्रघुस्तस्मादजो भवद पुत्रो दशरथस्तस्य कश्यपां श वैस्मृतः तस्य भार्यात्रयं चासीद्रूपेणाप्रतिमं मुने कौसल्या चैव कैकेयी सुमित्रा धर्मसंयुता यौवने प्रगदे प्राप न राजा पुत्रमुत्तमं नानायत्नं व्रतति व्रततीर्थाधिकम् मुने तदो वसिष्ठं विप्रेष्यं शस्त्रीकशरणं ययौ प्रधानिप्य राज्यम वसी गणेश मंत्रो दशाक्षर तस्मराज तथा वाजपत्नी सन्वित सूर्य से कुलदेव संा तस्य वंशे त्वमुत्पन्नः कथं तस्य विस्मृतिमात्रेण न सिद्धिं पुरुषो लभेद परत्रेह च विघ्नेन पीडितोऽदिमहाद्भुतम् अधस्त्वमपि पी राजेन्द्रगणपं भज भावतः न त्याज्योऽयं मन्द्रराजत्यागे हानिर्भविष्यति तथेदितं वसिष्ठं स उक्त्वा नत्वा ययौवनं तताप वै दशरथस्तप उग्रं महायशाः वायुमात्रा स पत्न्या सह विनीतात्मा च पत्थं मन्द्रमुत्तमं ततो वर्षशदे पूर्णे प्रसन्नोऽभूद्गजाननः आययौतं वरान्दातुं मूषकारूढ एव सः तं दृष्ट्वोद्धाय शस्त्री को सहसा प्रभुम् पूजयामास तं देवं स्तुत्वा स्तोत्रायैर्ननाम च ततस्तं गणराजो वै जगाम स नृपोत्तमं वरं ब्रूहि महाबाहो दास्येते मनसेप्सितं ततस्तद्वचनं श्रुत्व उवाच संविनयान्वितः प्रसन्नात्मा दशरथो गणेशं सर्वसिद्धिदं दशरथ उवाच यदि प्रसन्नो देवेश तदा देहि गजानन भक्तिं ते चरणेनाथ यया ज्ञानं न विद्यते अन्यद्देहि गणाधीशपुत्रं पृथुलकीर्तिदम् बलेनाप्रतिमं चैव तव भक्तिपरायणं मया यत्र तपस्तप्तं तत्र सुस्थिरो भव पूरयन् भक्त्रिभावेन जनानां मनसीप्सिदं तथेदि वै जगाद जगादगणनायकः अन्धर्धायस्वमात्मानं तदो स्वानन्दमादराद तदोवसिष्ठहस्तेन स्थापिता मूर्तिरादराद गणेशस्य च तत्रासीत् क्षेत्रं सकलसिद्धिदं पूजयित्वा दशरथशस्त्रीकश्च स विप्रतम् आययौ नगरे योध्यायां सर्वान् सम्प्रहर्षयन् ततो रावणनाशार्धं विष्णुमाज्ञापयत् प्रभुः गणेशसधुपुत्रो भून्मुने दशरथस्य भोः चतुर्धात्मानमाभज्य विबभौ हरिरव्ययः कौसल्यां समत्पन्न रास्त्रृदर कैकेयांरदो ज्ञ सुयांक्ष्मण शत्रुघ्न विप्रेन्द्रसर्वे विषु सबभु तदो दशरथो राजमरायण सं तं न सस्मार विस्मृता गणनायकम् तदो दशरथो राजा कामभोग कामभोगपरायणः संजातस्तं न सस्मार विस्मृत्या गणनायकं तदो रामस्य मौञ्ज्यादिकर्मते न कृतं मुने विश्वामित्रेण यज्ञस्य रक्षार्थं याजितो भवद सलक्ष्मणेन रामेण यज्ञस्तस्य प्रपालितः हत नाम राक्षसो दारुणो मुने प्रसन्नो भून् महायोगी प्रतापवान् अस्त्रविद्यां ददौ तस्मै रामाय सकलां मुने तदो जनकयत्नं वै जगाम मुनिकौशिकः पूजिदो जनकेन सह माहेश्वरं धनुस्तत्र सज्यं रामेण वै कृतम् <imentele> आकर्षणेन महता भग्नं मध्ये महामुने तदो जनकभूपेन दत्ता सीता महात्मने रामाय प्रीतियुक्तेन लक्ष्मणाय तथोर्मिला भ्रातृकन्ये ततो राज्ञा दत्ते तत्र महामुने भरताय तथा शद्रुघ्नाय भावेन मानद तदो दशरथो राजा कैकेय्या प्रार्थितो भृषं रामस्य वनवासार्थं राज्यार्थं भरतस्य च वरदानप्रभावेन तदेति स चकारः वर्षाणि वनवासं चतुर्दशचराघवः सलक्ष्मणश्च शस्त्रीकश्चकारपितृगौरवाद स तत्र नासिके रामो वासं चक्रे प्रहर्षितः तत्रातिथिस्वरूपेण रावणश्च समा एका समाययौ एकाकिनीं च सीतां सङ्गृह्यलङ्कां ययौ खलः सलक्ष्मणस्तदो रामो न ददर्शविदेहजाम् अपादमूर्च्छिदो भूत्वा विललापभृशातुरः तदो जगामरामश्च सीतामन्वेषयन्वने कर्णाडे तत्र शैवं सक्षत्रं मुख्यं ददर्शः तत्र शम्भुं स रामो वै लक्ष्मणेन समन्वितः आराधयन्महाभक्रियामासं वै संतुष्टस्तत्र रामाय वरं प्रादात्सदाशिवः सीताप्राप्तिस्वरूपं तमुपदेशं चकारसः शिव उवाच शृणुराममहाभागत्वं वै विष्णुः सनातनः भृगो शापेन जातोऽसि मानुषेदेकधारकः सीतावियोगजं दुःखं वनवासं तथा अधस्त्वं गणराजं वैभजत्वं भज त्वं तेन ज्ञानं चदे राम भविष्यदि पुरातनं सीताप्राप्तिर्महाबाहो भविता भा नात्र संशयः शिवस्य वचनं श्रुत्वा तं पप्र महायशाः राम परमशोकार्तो विनयेन समन्वितः राम उवाच वदशम्भो महेशान गणेशस्य स्वरूपकं कीदृशोऽयं विशेषेण सर्वाधीशश्च कथ्यते रामस्य वचनं श्रुत्वा शङ्करस्तमुवाचः योगं गाणेशकम्पूर्णं बोधयन् मुनिसत्तम शिव उवाच शृणुराम गणेशस्य ज्ञानं ते कथयाम्यहम् तेन त्वं सर्वभावज्ञः प्रलभसे प्रभो पञ्चधाकृतिसंस्थाया बुद्धिः सैव न संशयः चित्तरूपामहाभागा प्रकृतिस्तस्य भो विभो नानाभ्रमकरी माया सिद्धिः सर्वत्र दृश्यते भ्रमन्ति सर्वलोका वै मोहितास्तया सा प्रकृतिप्रोक्ता वामभागे प्रसंस्थिता बभूव वै बुद्धिर्मायेदि कथ्यते तयोस्वामी स्वामी योगशान्तिमयो मतः तं ज्ञात्वा च वयं रामशान्तिं प्राप्ता भजामहे बुद्ध्या बुध्यदे राम तदेवं तस्य रूपकं योगादिसाधनेनैव तच्च सिद्धिजम् माये चद्विविधेत्यक्त्वा भजस्व गणनायकं तेन योगमार्गज्ञो गणेशश्च भविष्यसि विघ्नराजस्स वेदेषु प्रोक्तो वै वेदवादिभिः तमनादृत्य विघ्नेशं विघ्नहीनः कथं भवेद विघ्नाधीनं महाभाग सकलं वेदवर्णितम् अदो विघ्नेन संयुक्तं हीनं प्रभवति प्रभो विघ्ना सत्तात्मका प्रोक्तास्तेषां स्वामी गणेश्वरः तं विधानेन विघ्नहीनो भविष्यसि हे रम्भं भजभावेन भक् मार्गं वदामिते तेनत्वं तेन त्वं लभसे देवं गणेशं नात्र संशयः स्वकीयसत्तयाहीनो भवेद्वै यदि मानवः हीनस्तदा समाख्यादः पराधीनस्वभावदः दीनानां रक्षकायै वै ईश्वराः परमेश्वराः ते प्रोक्ता विचारय महामदे दीनार्थवाचको रामहेर्वेदेषु विनिश्चिदं नाधोरम्भस्तयोर्योगे हे रम्भश्च प्रकथ्यते दीनासत्ताविहीनाश्च सत्तायुक्ताश्च पालकाः तेषां स्वामी सहैरम्भस्तं भजस्व विधानतः अभिमानं च द्विविधं त्यज त्वं राघवप्रभो दीनात्मकं तथा पूर्णः पालनात्मकमुत्तमं दीना येन कृदा जीवा परमेश्वराः तदधीनं जगद्ब्रह्ममत्त्वातं शरणं व्रज एवमुक्त्वा महादेवो राघवं च सलक्ष्मणम् अन्तर्धानं जगामापि राघवस्तत्र संस्थितः विद्याधीशपुरे रामस्तताप तप उत्तमम् शिवोपदिष्टमन्त्रेण तोषयामास विघ्नपं हे रम्भं तं सदा रामो लक्ष्मणश्च विशेषतः पुपूजभक्तिसंयुक्तो निराहारसमन्वितः हा। ध्यानेन तस्य देवस्य स्वल्पकालेन च राम शान्तियितो विप्रसमभूद्योगसेवया निश्चयं तस्य रामस्य दृष्ट्वा भक्तं तमाययौ षण्मासैश्च वरं दातुं गणेशः करुणानिधिः सलक्ष्मणं च रामं स बोधयामास विघ्नवः तदोध्यानम् परित्यज्य गणपम् नेमदुःपरं ततस्तं पूजयामास रामो देववरो मुने तुष्टावस तुष्टावसगणाधीशम् भक्ति नम्रात्मकन्धरः राम उवाच हे नमस्तुभ्यं दीनकर्त्रे कृपालवे दीनाधस्वरूपाणां कर्त्रे वै नमो नमः ईश्वराणां च दीनानामभेदाय च ते नमः विघ्नेशाय गणानां वै पदये ते नमो नमः अनादये च सर्वेषामादिरूपाय नमः अंद मध्य प्रतिष्ठा लंबोदर नमो नम चमणे चित्ताय नमो नम भेदेदा तदा सर्व पुझ्याया पुझ्याया परमात्मने अनंताय परेशा डुण्ढिराजाय ते नमः पूर्णाय पूर्णनाथाय स्वानन्दस्थाय नमः सिद्धिबुद्धिप्रदात्रे च सिद्धिबुद्धिवराय च समर्थानां च देभक्तिहीनानां दैन्यकारिणे दीनानां भक्तियुक्तानां नमः सामर्थ्यकारिणे दीनत्वं च समर्थत्वं त्वदधीनं न अदो मां रक्षयोगेश योगेशाय नमो नमः किं स्तौ मि त्वां न समर्थाश्च वेदा यं योगीन्द्रास्तत्र रामस्य तस्य स्तुवद एवं सम्भक्तिभावितः रोमोद्गमः प्रादुरासीत् कण्ठरोधस्तथैव च ततो भक्तिरसेमग्नं रामम् वीक्ष्य गजाननः जगाद तं वरं ब्रूहि मनसीप्सिदमादराद त्वया कृतमिदं स्तोत्रम् भवेन्मत्प्रीतिवर्धनम् शान्तियोगप्रदं चैव भक्तिलक्षणवर्धनम् यद्यदिच्छति तत्तद्वै दास्यामि स्तोत्रपाठतः श्रवणेन न सन्देहः प्रियो मे स भविष्यति हेरम्बस्य वच तमुवाच जनार्दनः रामः परमभावेन भक् च प्रकृताञ्जलिः राम उवाच यदि प्रसन्न भावेन वरदोषि गजानन तदा त्वदीयपादाब्जे भक्तिर्भवदुशाश्वती योगशान्तिस्मृतिर्नित्यं यथा शङ्करभाषितं तथा योगीन्द्रवन्द्यं मां कुरुष्व गणपप्रभो रावणेन कृदासीद तद्वदार्थं समुद्यधः अहं तत्र जहेरम्ब जयं देहि विशेषतः मदीयस्य च नाम्नो वै महिमानं महाद्भुतं कुरु सर्वत्र मान्यं मां कीर्तियोक्तं गजानन एवं तस्य वच श्रुत्वा हेरम्बो राममब्रवीद यथा सम्प्रार्थितं विष्णो तथास्तु तव नित्यदा मदीयस्मरणेनैव सर्वं ते सुलभं भवेद तव नामप्रभावेण तरिष्यन्ति दुजन्दवः जन्तवः एवमुक्त्वा गणेश्यानोऽन्तर्धानं प्रचकारः रामो लक्ष्मणसंयोक्तो भवत्तत्रैव संस्थितः ततोगस्त्यं समानीय रामो विप्रेन्द्रसप्तमैः मूर्तिं संस्थापयामास हेरम्बस्य विधानदः तदादिगणनाधस्तु हेरम्भः संस्थितो भवद पुरे विप्र भक्तेभ्य विद्यापुरे विप्रक्भ्यंपूज्वाम स शोकनया मु जगामल नुक्त रक्षो वहाय चुग्रीव मित्रभावेन वनर सहित मुने कृत्वा च वालिनं हत्वा ययौ लां महाबलः हनोमदङ्गदाद्यैश्च सुग्रीवाद्यैश्च संवृतः अन्याैर्जाम्बवदाद्यैश्च वानरैर्देवरूपिभिः सलक्ष्मणश्च रामोऽयं युयुधे राक्षसैस्ततः राक्षस राक्षससङ्कांशकुम्भकर्णं जखान च लक्ष्मणश्चेन्द्रजेतारं मारयामास वेगदः ततोऽधिकोपसंयुक्तो रावणो युयुधे भृशं तेन सर्वे कपीन्द्राश्च हता सम्मूर्छिदाकृताः लक्ष्मणो मूर्च्छितस्तत्र भृशं रामश्च पीडितः शस्त्रास्त्राणि रामस्य कुण्ठितानि विशेषतः ततो दिविह्वलो रामस स्मारगणनायकं स्मृतिमात्रेण रामस्य हृदि चिन्तामणि स्वयं तदौ स्फूर्तिं तथा रामो जकानरावणं मुने स्वयं बुद्धिपदि साक्षाद्रामार्थं बुद्धिदो भवद बुद्ध्यधीनं विशेषेण महामुने। तदो खत्वा महावीरं रावणं रविवंशजः रामश्चकारायां राजानं च बिभीषणं ययौ सीतां विमानेन सङ्गृह्य नगरे स्वके चकारराज्यमुग्रं वै सदा धर्मेण धर्मविद सीतया सक्रचित्तः सव्यस्मरज्ञानमुत्तमं गणेशं च ततस्तस्य वियोगसीतया भवद अश्वमेधादिकं कृत्वा संस्थितो राज्यकर्मणि तदो वसिष्ठयोगेन पुनर्ज्ञानमवापः तद शातिसमूक्त गणेश मनसा सदा पुपूज पुपूजक्ति संयुक्त बहिर्मूर्तिधरम मुने अंदे जगामराम स विकुंडम विष्णुव्यय त्र तत्रतम गणना सो चेतसा, इदं रामचरित्रं यः शृणुते भक्तिसंयुधः पठेद्वा भुक्तिदं तस्य मुक्दिदं प्रभविष्यति अयं वावतारस्ते महामुने एरं एरम्भाख्यस्तथा प्रोक्तश्रवणात् सर्वसिद्धिदः ॐ तत्सदि श्रीमदान्ध्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खण्डे महोदरचरिते रामचन्द्रचरितं नाम षड्विंशतितमोऽध्यायः ॐ